भागवत श्रीमद्भागवत् महापुराणं दसंस्कन्ध पञ्चसप्ततितमोऽध्यायः सर्वे जनासुररुचो मणिकुण्डलस्र गोष्णीशकञ्चुकदुक्कूलमहार्घ्यहारा नार्यश्च कुण्डलयुगालकवृन्दजुष्ट वक्तस्य कनकमेखलया विरेजुः अथ त्वेजो महाशीला सदस्या ब्रह्मवादिनः ब्रह्मच्छत्रियविश्रुद्रा राजानो ये शमागताः देवर्षि पितृभूतानि लोकपाला शहानुगाः पूयिता तमनुज्ञाप्य सुधामानि ययुर्निप हरिदासस्य राजर्षे राजसूयमहोदयं देवातृप्यन् प्रशंसन्तपि मन्मरचो मृतं यथा ततो युधिष्ठिरो राजा सुहिसम्बन्धिबान्धवान् प्रेम्णा निवासयामास कृष्णं च त्यागकाचरः भगवानपि तताङ्गं वासीत्प्रियंकरः प्रस्थाप्य यद् वीरांश्च साम्बादिश्च कुशस्थलिम् इत्थं राजा धर्मस्रुतो मनोरथमहाणवं सुदुस्तरं समुत्तीर्य कृष्णेनाशी गतज्वरः एकदान्तपुरे तस्य भिक्षु दुर्योधनश्रियम् अतप्यद्राजसूयस्य महित्वं चाचितात्मनः यस्मिन्नरेन्द्रदिजेन्द्र सुरेन्द्रलक्ष्मी नानाभिभान्ति किल विश्वसुजोपक्लिप्ताः ताभि पतेन द्रुपदां द्रुपदराजसुतोपतस्ते यस्यां विशक्तिहृदयकुरुराडतव्यत यस्मे सदा मधुपतेर्महिषीसहस्रं षोडीभरेण सनिकैः स्वर्णदङ्घ्रिशोभम् मध्ये सुचारुकुजकुङ्कुमषोडहारं श्रीमन्मुखं प्रचलकुन्दलकुन्तलार्यं सभायां मय क्लिप्तायां क्वापि धर्मसुतोधिराट् दृतोऽनूजये बन्धुभिश्च कृष्णेनापि सुचक्षुषाम् आसीन काञ्चने साक्षाद् आसुने भगवानिव परमेश श्रियाजिष्टूयमानस्य बन्दिभिः तत्र दुर्योधनो मालिपरीतो भ्रातृभिर्नृप कीटमालीन विशन्सि हस्तक्षिपन्नुषा स्थलेभ्य कृष्णाद्वक्त्रां तां जले मत्वा स्थले पतत् जले स स्थलवद्भ्रान्तामय मायाविमोहितः जहासभीमस्तं दृष्ट्वा श्रियोनिपतयोपरे निवार्यमाणा अभ्यङ्गराज्ञा कृष्णानुमोदिताः स वेलितो वाग्वदनो वृषाज्वलन निष्क्रम्य तृष्णिं प्रयौ गजाभयम् हा हेति शब्दशुमहानभूतः सतां मजातसत्रुरिवनाय वा भवत् बभूवतुष्टिं भगवान् भुवो भरं समुज्जिहीर्षो भ्रमते स्म यद्दृशां यतत्तेऽभि तं राजन् यत्पृष्टोऽहमिह त्वया सुयोधनस्य दौरात्म्यं राजसूये महाकृतौ इति श्रीमद्भागवते महापुराणे पारभंसां सैतायां ततं स्कन्धे पञ्चसप्ततितमोऽध्यायः